श्रीशरभेश्वरसहस्रनामावळिः ॐ श्रीनाथाय नमः ॐ रेणुकानाथाय नमः ॐ जगन्नाथाय नमः ॐ जलाश्रयाय नमः ॐ श्रीगुरवे गुरुगम्याय नमः ॐ गुरुलोपाय नमः कृपानिधये नमः ॐ हिरण्यमाहवे नमः ॐ सेनान्ये रिक्पदये नमः ॐ तरुराजे नमः ॐ हरायहरिकेशाय नमः ॐ पशुपतये नमः ॐ महासस्पिञ्जलाय मय नमः ॐ गणेशाय गणनाथाय नमः पूज्याय नमः ॐ गणाश्रयाय नमः ॐ दिव्याधिने नमः ॐ भूद्भुवश्रेष्ठाय नमः परमात्मने सनातनाय नमः ओम् पीठेशाय पीठरूपाय नमः ओम् पीठपूज्याय नमः ओम् शिखावहाय नमः ओम् सर्वराजाय जगत्कर्त्रे नमः ओम् पुष्टेशाय नमः ओम् नन्दिकेश्वराय नमः ओम् भैरवाय नमः भैरवश्रेष्ठाय नमः ॐ भैरवायुधारकाय नमः ॐ आततायने नमः ॐ महारुद्राय नमः ॐ सुरेश्वराय नमः ॐ संसारालये नमः ॐ सिद्धिसिद्धप्रदाय नमः ॐ साध्याय नमः ॐ सिद्धमण्डलपूजिताय नमः उपवीतिरे नमः ओम् अहन्यात्मने नमः ॐ क्षेत्रेशाय नमः ॐ पुनरनायकाय नमः य बहुस्वामिने नमः ओम् बहुपालनकारकाय नमः ओम् रोहिताय नमः ओम् स्थपदरे नमः ओम् सुताय नमः ओम् वाणिराय नमः ॐ मन्त्रिणे नमः ओम् अनाथनाथाय नमः नमः ओम् परप्राप्ताय नमः ोम् मदेशायपदनायकाय नमः ॐ प्रक्षेशाय नमः ॐ हुतभुग्देवाय नमः ओम् भुवन्तदेवादिवस्कृताय नमः ॐ धूतिकामाय नमः ॐ धूलिनाथाय नमः ॐ <NicoH> शाम्भवाय नमः ओम् शङ्करप्रभवे नमः म् उच्चैर्घोषाय नमः ॐ घोररूपायपद्धीशाय नमः ओम् पाशमोचकाय नमः ॐ वीर्याय नमः ॐ वीर्यकराय नमः ॐ वीरवीरेशवरदायकाय नमः ॐषधीशाय नमः ॐ पञ्चवक्त्राय नमः ॐ यान्धकाय या नमः ॐ वीरनाथाय नमः ओम् वीररूपाय वीरघ्ने नमः ओम् आयुधारकाय नमः ओम् सहमानाय नमः ओम् स्वर्णरेतसे नमः ॐ निव्याहिने निरुपप्लवाय नमः ओम् चतुराश्रमनिष्ठाय नमः ूर्तये नमः ॐ चतुर्भुजाय नमः ॐ आव्याधिशाय नमः कुभाजनिषङ्गिने नमः स्तोषकाय नमः ॐ षष्ठीशाय नमः ओिकारूपाय नमः ओ मल्लसङ्केतवर्धकाय नमः मन्त्रात्मने नमः स्कराध्यक्षाय नमः ओम् वञ्चकाय नमः ओम् परिवञ्चकाय नमः ओम् नवनाथाय नमः ओम् भवाङ्गस्थाय नमः ओम् परचक्रेश्वराय नमः ॐ विभवे नमः चरायनिचैरवे नमः ओ ताररक्षकाय नमः ओम् वीरमालिप्रियाय नमः ओम् शान्ताय नमः ॐ युद्धविक्रमदर्शकाय नमः ॐ प्रकृशाय नमः ॐ गिरायकुलुञ्चेशाय नमः म् गुहेष्टदाय नमः ॐ पञ्चपञ्चकतत्त्वस्थाय नमः ओम् तत्त्वातीतस्वरूपकाय नमः ॐ भवाय नमः ओम् शर्वाय नमः ओम् नीलकण्ठाय कपर्दिने नमः ओम् त्रिपुरान्तकाय श्रीमन्दाय नमः ॐ श्रीकलानाथाय नमः ॐषयोधशेयोमारिधये नमः ुक्तकेशाय नमः ॐ गिरिशाय नमः ॐ सहस्राक्षाय नमः ॐ सहस्रपदे नमः मालाधराय मुनिश्रेष्ठाय नमः ओम् मुनिमानसहंसकाय नमः ओम् शिष्टाय नमः ॐ चन्द्रमौळये नमः ॐ हंसाय मीनुष्टमाय नमः अनघाय मन्त्रराजाय नमः मन्त्ररूपाय नमः ॐ मन्त्रपुण्यफलप्रदाय नमः ॐर्म्याय नमः ॐ शूर्म्याय नमः ॐिभ्याय नमः ॐ प्रथमाय नमः ॐ पावकाकृतये नमः ॐ गुरुमण्डलरूपस्थाय नमः ॐ गुरुमण्डलकारणाय नमः ॐ आचाराय नमः ओम् यताराय नमः ओम् अवस्वन्याय नमः ओम् अनन्तविग्रहाय नमः ओम् चितिमण्डलरूपाय नमः ओम् वृद्धिक्षयविवर्जिताय नमः ओम् दिव्यश्रोतस्थाय नमः ओम् ईशानाय नमः ओम् सूर्याय नमः ॐ पल्लगदोदयाय नमः ओम् प्रथमप्रथमाकाराय नमः म् द्वितीयाय नमः ॐ शक्तिसंयुताय नमः ॐ गुणत्रयतृतीयाय नमः ॐ युगरूपचतुर्थकाय नमः ॐ पूर्वजाय नमः ओम् अवरजाय नमः ॐ ज्येष्ठाय नमः ॐ कनिष्ठाय नमः ॐ विश्वलोचनाय नमः ॐ पञ्चभूतात्मसाक्षीशाय नमः ऋतुषड्भावनाय ओम नमः ओम् अप्रगल्धाय नमः ओम् मध्यमाय नमः ओम् जघन्याय नमः ओम् सुधन्यायशुभाय नमः ओम् सप्तधातुस्वरजपाय नमः ओम् अष्टमहासिद्धसिद्धिदाय नमः म् प्रतिसूर्याय नमः ओम् अनन्तरूपाय नमः ओम् सौम्याय नमः ओम्, सौम्या ओम् याम्याय नमः सुराश्रयाय नमः ओम् नवनाथाय नमः ॐ नवार्तस्थाय नमः ओम् दशतिग्रूपतारकाय नमः ओम् रुद्रैकादशकारकाय नमः ओम् द्वादशादित्यदीपकाय नमः ॐ वन्याय नमः ओम् अवसान्याय नमः ओम् भूतात्मने नमः श्रवाय नमः ॐ प्रक्षाय नमः ॐ प्रतिश्रवाय नमः ओम्नावञ्जनातीताय नमः ॐ विसर्गस्वरभूषणाय नमः ओम् आकर्षणाय महासेनाय नमः ॐ महावीराय महारथाय नमः न्ताय अव्ययाय नमः ओम् आद्याय नमः ओम् आदिशक्तिवरप्रदाय नमः ओम् श्रुतसेनाय नमः ओम् श्रुतसाक्षिणे नमः ओम् प्रवचिने नमः ओम् वशकृतेवशाय नमः ओम् आनन्दाय आद्यसंस्थानाय नमः ओम् आदिकारणलक्षणाय नमः म् आहनन्याय नमः ओम् अनन्यायनाथाय नमः ओम् नुन्दुभ्याय नमः ओम् दुष्टनाशकायकर्त्रे नमः ओम् कारयित्रे नमः ओम् कार्याकार्यकारणपावनाय नमः ओम् तृष्णवे नमः ओम् प्रमशाय नमः ओम् ईशान्यायपदान्याय नमः म् वेदवित्तमाय नमः ॐ कलानाथाय नमः ॐ कलातीताय नमः ॐ काव्यनाटकबोधकाय नमः ॐ श्रीक्ष्णेशवे नमः ॐ वाणिविधुजाय नमः ॐयुधाय नमः ॐ शस्त्रविक्रमाय नमः ॐ कालहन्त्रे नमः ॐ कालसाध्याय नमः लचक्रप्रवर्तकाय नमः ॐ सुधन्विने नमः ओम् सुप्रसन्नात्मने नमः ओम् प्रविविक्ताय सदागतये नमः ओम् भवघ्नाय नमः ओम् शत्रुसंहर्त्रे नमः ओम् गमनागमनवर्जिताय नमः ॐ कालाग्निरुद्रसंहर्ताय नमः ॐ कालान्धकभयङ्कराय नमः खगेशाय नमः ओम् खगनाथाय नमः ॐ खगशक्तिपरायणाय नमः ॐ यज्ञकर्मफलाध्यक्षाय नमः ॐ यज्ञमोत्रये नमः ओम् अनादुराय नमः ॐ घनश्यामाय नमः ॐ भ्रणानन्दाय नमः ॐ भ्रणाधानप्रयातकाय नमः ॐ घनकर्त्रे नमः ्रात्रे नमः ओम् भणभीजसमुद्धिताय नमः ॐ लोभ्याय नमः ओम् कुलभ्याय नमः ॐ पर्णसद्याय नमः ॐ पर्णपुरातनाय नमः ॐ प्रकारसिद्धिसाध्याय नमः ॐ वेदवर्णनसङ्काय नमः ॐ भूताय भूतपतये नमः ॐ भूयसे भूधराय नमः भूतरायुधाय नमः ॐ छन्दःसाराय नमः ॐ छन्दत्रे नमः ॐ छन्दसे नमः ॐ अन्वयतारकाय नमः ॐ भूतसङ्घाय नमः ॐ भूतमूर्तये नमः ॐ भूतिराजे नमः ॐ भूतिभूषणाय नमः त्रसिंहासनाधीशाय नमः ॐ भिन्नक्षत्रे नमः ॐ समृधिमते नमः ॐ मदनाय मादकाय नमः ॐ मान्याय मधुराय नमः ॐ मधुरप्रियाय नमः ॐ जपाय जपप्रियाय नमः ्याय नमः ॐ जपसिद्धिप्रदायकाय नमः ॐ जपसङ्ख्याजपाकाराय नमः ॐ सर्वमन्त्रजपप्रियाय नमः ओम् मधुवे नमः मधुकराय नमः ओम् अक्रूराय नमः ॐ जशरूपधराय नमः ृद्धिविवर्धकाय नमः ॐ यमशासनकर्त्रे नमः पूज्याय नमः नमः ओम् निरञ्जनाय निराधराय नमः ओम् निर्मिप्ताय निरुपाधिकाय नमः ओम् टङ्कारार्थाय नमः ओम् शिवप्रीताय नमः कलाश्रयाय नमः ॐ निष्प्रपञ्चाय नमः ॐ निराकाराय नमः ॐ निरीहाय निरुपद्रवाय नमः ॐ समर्थप्रतिसामान्याय नमः ॐ मन्त्रसारसुसाधकाय नमः ॐ सत्त्वाय सत्त्वगुणोपेताय नमः ॐ सत्त्वविधे नमः ॐ सत्त्वविप्रियाय नमः ओम् सदाशिवाय रुद्ररूपाय नमः ॐ अक्षविक्षिप्तभूधराय नमः ॐ धनधान्यप्रदायकाय नमः ॐ अष्टपादाय रुद्राय नमः ॐ शरभमूर्तय नमः ॐ नाथाय नाथप्रियाय नमः ॐ नाद्याय नमः ओम् धननाथाय नमः ॐ नादब्रह्माण्डनायकाय नमः ॐ नमोरुद्ररौद्राय नमः ॐ महोग्राय मीदुषे नमः ॐ नाथज्ञानरथाय नमः ॐ नित्यनादान्तपददायकाय नमः ॐ फलरूपाय फलादीताय नमः ॐ फलायाक्षरलक्षणाय नमः ॐ श्रीं ह्रीं क्लीं सर्वभूतान्याय नमः ॐ भूतिभूषणाय नमः ॐद्राक्षमालाभरणाय नमः ॐद्राक्षप्रियवत्सलाय नमः ॐ रुद्राक्षवक्षसे नमः ॐद्राक्षरूपाय नमः ॐ रुद्राक्षभूषणाय नमः ॐ फलदाय फलकर्त्रे नमः ॐ फलकर्त्रे फलप्रियाय नमः ॐ फलाश्रयाय फलातीताय नमः ॐ फलमूत्रये निरञ्जनाय नमः ॐ बलानन्ताय नमः ॐ बलग्रामाय नमः ॐ बलीचाय नमः यकाय नमः ॐ ग्रां ग्रां ह्रां वीरभद्राय नमः ॐ सम्भ्राजे नमः ॐ रक्षमखान्तकाय नमः ॐ भविष्यज्ञाय भयत्रात्रे नमः ॐ भयकर्त्रे नमः ॐ भयारिघ्ने नमः ॐ विघ्नेश्वराय नमः ॐ विघ्नकर्त्रे नमः गुरुदेवाय शिखामनये नमः ॐ भावनाध्यानरूपस्थाय नमः ॐ भावार्थफलदायकाय नमः ॐ श्रीं ह्रीम् कल्पलताकल्पकल्पनापूरणालयाय नमः ॐ भुजङ्गधामसत्कर्मिणे नमः ॐ भुजङ्गाभरणप्रियाय नमः ॐ ह्रीं ह्रूं मोहनकर्त्रे नमः ॐ छन्दमानसतोषज्ञाय नमः ॐ मानातीतस्वयंवराय नमः ॐ भक्तमानससंश्रयाय नमः ॐ मृगेन्द्रचर्मवसनाय नमः ॐ नारसिंहनिपातनाय नमः ॐ आकारायाग्निबीजाय नमः ॐ अपमृत्युविनाशकाय नमः ॐ प्रैं प्रें प्रहृष्टेष्टदाय नमः ॐ मृत्युघ्ने नमः म् मृत्युपूजिताय नमः ॐ व्यक्ताव्यक्ततमाय नमः ओम् अव्यक्ताय नमः ॐ अतिलावण्यसुन्दराय नमः ॐ रथिनाथरसिप्रियाय नमः ओम् मिथिनाथधनाधिपाय नमः ओम् मिथिनाथधनधाय नमः ओम् रमाप्रियकराय रम्याय नमः ॐ अलिङ्गलिङ्गात्मविग्रहाय नमः ॐ ग्रहाकाराय नमः ॐ रक्तविक्रियविग्रहाय नमः ॐ ग्रहाग्रहविलक्षणाय नमः ॐ नमः पक्षिराजाय नमः ॐ भावाग्निरूपकाय नमः ॐरपाचकनाशनाय नमः ॐ सूर्यमण्डलसुप्रभाय नमः ॐ पवनाय नमः गम्याय नमः ॐ महाकालाय नमः ॐ मलापहाय नमः ॐ वर्धमानाय नमः ॐ बुद्धिरूपाय नमः ॐ विश्वभक्तप्रियोत्तमाय नमः ॐ ह्रूं ह्रूं सर्वगाय नमः ॐ सर्वस्मै नमः ॐ सर्वजित्सर्वनायकाय नमः ॐ जगदेकप्रभुस्वामिने नमः ॐ जगद्वन्द्याय जगन्मयाय नमः ॐ सर्वान्तराय नमः ॐ सर्वव्यापिने नमः ॐ सर्वकर्मप्रवर्तकाय नमः ॐ जगदानन्ददाय नमः ॐ जन्मजरामरणवर्जिताय नमः ॐ सर्वार्थसाधकाय नमः ॐ साध्यसिसिद्धिसाधनसाधकाय नमः ॐ खवाङ्गिनेतिमते नमः ॐ साध्यानदेवतात्मने नमः ॐ आत्मसम्भवाय नमः ॐ हविर्भोक्त्रे नमः ओम् हविप्रीताय नमः ओम् हव्यवाहनभव्यकृते नमः ॐ कपालमालाभरणाय नमः ॐ कपालिने नमः ॐ शिशुर्वल्लभाय नमः ॐ श्रीं ह्रीं प्रवेशघ्नस्थूलास्थूलविशारदाय नमः ॐ कालाधीशायत्रिकालज्ञाय नमः ॐनिग्रहकाचदाय नमः ॐ हूं हों हूं हों नकवरमहानाग्निविशारदाय नमः ॐ क्षमाकारक्षमानाथाय नमः ॐ क्षमापूरितलोचनाय नमः ॐ वृषाङ्गवृषभाधीशाय नमः ॐ क्षमासाधनसाधकाय नमः ॐ क्षमाचिन्तनसुप्रीताय नमः ॐ वृषात्मने नमः ॐ वृषभध्वजाय नमः ॐ क्रों क्रों क्रों क्रों महारायाय नमः ॐ महावक्षसे नमः ॐ महाभुजाय नमः ओम् मूलाधारनिवासाय नमः ॐ गणेशायसिद्धिदालकाय नमः ओम् महास्कन्धाय नमः ओम् महाग्रीवाय नमः ओम् महावक्त्राय नमः ओम् महाशिरसे नमः ॐेष्ठाय नमः ॐ महोदर्याय नमः ओम् महादंश्राय नमः ॐ महाहनवे नमः ॐ सुन्दरभ्रुवे नमः ॐ सुनयनाय नमः ॐक्राय नमः ॐ सर्वलक्षणाय नमः ॐ मणिपूरमहाविष्णवे नमः ॐ सुललाटाय नमः ॐ सत्यवाक्याय नमः ॐ धर्मवेत्रे नमः ॐ प्रजारञ्जनकारणाय नमः ॐ स्वाधिष्ठानाय रुद्ररूपाय नमः ॐ सत्यज्ञाय सत्यविक्रमाय नमः ॐ ह्लौं ह्लौं गां गां महादेवाय नमः ॐक्तिसमाहिताय नमः ॐ कृतज्ञाय कृतकृत्यात्मने नमः ॐ कृतकृत्यसमागमाय नमः ॐ हं हं हंसगुरवे हंसाय नमः ॐ हंसमन्त्रास्तमन्त्रकाय नमः ॐ व्रतकृद्व्रतविशिष्टव्रतविदुषे नमः ॐ महाम्रताय नमः ॐ सहस्रारसहस्राक्षाय नमः ॐ वृन्दारुव्रतेश्वराय नमः ॐ मृतप्रीतव्रताकाराय नमः ॐ चित्तनिर्वाणदायकाय नमः ॐ ह्रीं ह्रूं क्लीं श्रीं ह्रूं फट् स्वाहातिरागिणे नमः ॐ वीतरागाय नमः ॐ कैलासानाहतध्वनये नमः ॐ मायापूरकयन्त्रस्थाय नमः ॐ रागहेतुविरागविदे नमः ॐ रागघ्नाय नमः ॐ रागशमनाय नमः ॐ रञ्जकाय रागवर्जिताय नमः ॐ सहस्रदळगर्धस्थाय नमः ॐ चन्द्रिकाद्रवसंयुताय नमः ॐ अन्तर्निष्टमहाबुद्धिप्रदात्रे नमः ॐ नीतिसत्तमाय नमः ॐ नीतिकृतिविन्नीते नमः ॐ अन्तर्यागस्वयं सुखाय नमः ॐ विनीतिवत्सराय नमः ॐ नीतिसंश्रयाय नमः ॐ स्वभावयन्तसचराय नमः ॐ धनुरूपाय नमः ॐ अलोलुपाय नमः ॐ क्षेत्रकर्मप्रवीणाय नमः ॐ क्षेत्रकर्तनवर्धनाय नमः ॐ क्रोधजित्क्रोधमत्क्रोधिने नमः ॐ जनविक्रोधरूपधृते नमः ॐ विश्वरूपाय विश्वकर्त्रे नमः ॐ चैतन्याय नमः ॐ यन्त्रजालकाय नमः ॐ मुनिध्येयाय नमः ॐ मुनित्रात्रे नमः ॐ शिवकर्मधुरन्धराय नमः ॐ धर्मज्ञायधर्मसम्पन्नाय नमः ॐ ध्वान्तघ्नाय ध्वस्तसंयाय नमः ॐ इच्छाज्ञानक्रियाधीतप्रभावाय नमः ॐ पार्वतीपतये नमः ॐ हं हं हं हं हं लतारूपाय नमः ॐ कल्पनावाञ्चितप्रदकल्पवृक्षाय नमः ॐ कल्पनाथाय नमः ॐ पुण्यश्लोकप्रयोजकाय नमः ॐ प्रदीपनिर्मलप्रौढाय नमः ॐ परमाय परमागमाय नमः ॐ जराम् जराम् जरां सर्वसंक्षोभाय नमः ॐ सर्वसंहारकारकाय नमः ॐ क्रोधग्ने नमः ॐ क्रोधनक्रोधिने ॐ महाक्रोधनकारणाय ॐ गुणवते ॐ गुणवत्श्रेष्ठाय ॐ सत्त्वविद्यावबोधकाय ॐ गुणाधाराजगुणाकरायनमः ॐ सर्वकल्याणदेशिकाजनम ॐ सत्त्वराजनमः ॐ सत्त्वविद्भावसत्त्वविज्ञानलोचनायनमः ॐ वीर्यवते नमः ॐ वीर्यमिच्छ्रेष्ठायनमः ॐ ह्रां ह्रीं ह्रूं क्लीं श्रीं ह्रूं भ्रौं हं श्रीं क्रों हुं पट् स्वाहा वीर्याकाराय नमः ॐ वीर्यकरच्छिन्नमूलाजनमः ॐ ॐ अविच्छिन्नप्रभावश्रिये नमः ॐ वीर्यघ्ने नमः ॐ वीर्यवर्धकाय नमः ॐ कालवित्कालकर्त्रे नमः ॐ कालफलप्रमदनाय नमः ॐलायनमः ॐ छिन्नपापाय नमः ॐ छिन्नपाशाय नमः ॐ विच्छिन्नभयनाशनाय नमः ॐ मनोन्मणये नमः ॐ महारूपाय नमः ॐ विच्छिन्नभयनाशनाय नमः ॐ विच्छिन्नसङ्घसङ्कल्पाय संग नमः ॐ बलप्रमथनाय नमः ॐ ममलाय नमः ॐ विद्याप्रदात्रे नमः ॐ विद्येषाय नमः ॐ शुद्धबोधसुबोधिताय नमः ॐ शुद्धबोधविशुद्धात्मने शुद्ध नमः ॐ विद्यामन्त्रैकसंश्रयाय नमः ॐ शुद्धसत्त्वविशुद्धान्तविद्यावेद्याय नमः ॐ विशारदाय नमः ॐ अविनाशाय नमः ॐ लीराभासविशुद्धज्ञानघोराय नमः ॐ श्रीं ह्रीं ऐं सौं शिवं गुरुगुरु स्वाहासंसाराय नमः ॐ यज्ञनाथाय नमः ॐ महायज्ञविवर्धनाय नमः ॐ नमः श्री सोमसूर्याय नमः ॐ मूर्तिवैचित्र्यहेतवे नमः ॐ जगज्जीवजगत्प्राणाय नमः ॐ जगदात्मने जगद्गुरवे नमः ॐ आनन्दरूपवदे नमः ॐ प्रकाशानन्दरूपवते नमः ॐ योगज्ञानमहाराजाय नमः ॐ योगज्ञानमहाशिवाय नमः ॐ अखण्डानन्दनाथार्याय नमः ॐ पूर्णानन्दस्वरूपवते नमः ॐ वरदाया विकाराय नमः ॐ सर्वकारणहेतवे नमः ॐ कपालिने करालाय नमः ॐ मदे नमः ॐ मघोरायाग्निनेत्राय नमः ॐ दण्डिने घोररूपाय नमः ॐ विशक्तचापदण्डाय नमः ॐ कपालीचायशम्भवे नमः ॐ हूं क्षों रों क्लीं सिद्धाय नमः ॐ घण्टारवाय नमः ॐ सिद्धगणाय नमः ॐ गर्भघण्टाधुरैक्रियाय नमः ॐ गजनाथाय नमः ॐ महावासाय नमः ॐ सुरदासाय नमः ॐ गणेश्वराय नमः ॐ सर्वपक्षिमृगाकाराय नमः ॐ <misterisation> सर्वपक्षिमृगाधिपाय नमः ॐ चित्राय विचित्रसङ्कल्पाय नमः ॐ विचित्राय विषधीतयाय नमः ॐ निर्भवाय भवनाशनाय नमः ॐ निर्विकल्पाय नमः ॐ विकल्पकृते नमः ॐ अक्षवित्पुलकाय कर्त्रे नमः ॐ गोविदाय कामशासनाय नमः ॐ निन्दाद्वेकादिकर्त्रे नमः ॐ निन्दाद्वेकापहारकाय नमः ॐ कालाग्निरुद्राय नमः ॐ सर्वेशाय नमः ॐ शरभेशाय नमः ॐ समरूपाय नमः ॐ समेश्वराय नमः ॐ प्रलयानकर्तव्ययाय नमः ॐ प्रलयानशासनाय नम ॐ कल्मगाय नमः ॐ मणिषड्वर्गनाशनाय नमः ॐ नरथप्रियाय नमः ॐ मक्षोभाय नमः ॐ शोभरहिताय नमः ॐ शोभदाय नमः ॐ शोभनाशनाय नमः ं प्रां प्रीं प्रैं प्रौं प्रमणिमन्त्र औषधादीनां शक्तिरूपाय नमः ॐ शम्भवे अप्रमेयायदेवाय नमः ॐ मशत्स्वाहास्वधात्मने नमः ॐ द्युमूर्ध्ने नमः ॐ दशदिग्वाहवे नमः ॐ चन्द्रसूर्याग्निलोचनाय नमः ॐ बादालाङ्गं नीलकुक्षिप्रमुखाय नमः ॐ गगनोदराय नमः ॐ कलानाथकलाबिन्दवे नमः ॐ कलाज्यतिस्सनातनाय नमः ॐ अलौकिकलाधनाय नमः ॐ कैवल्यपददायकाय नमः ॐ कौलाय नमः ॐ कुलेशाय नमः ॐ कुलजाय नमः ॐ कविकत्पूरघौराय नमः ॐ कामेश्वराय कृपासिन्धवे नमः ॐ कुशलाय कुलभूषणाय नमः ॐ कौपीनमसनाय नमः ॐ कान्ताय नमः ॐ कल्कपादपाय नमः ॐ सौं हंसः नमः। नमः ॐ भस्मोज्जोलितविग्रहाय नमः ॐ भस्माभरणहृष्टात्मने नमः ॐष्टपुष्टादिसूदनाय नमः ॐ स्थानवे नमः ॐ दिगम्बराय नमः ॐगाय नमः ॐ भगनेत्रभिदेमः ॐलाय नमः महायशसे नमः ॐ सामप्रियाय नमः ॐ सामकर्त्रे नमः ॐ सामगाय नमः ॐ साय नमः म् घोरोदात्ताय महाधीराय नमः ॐ धैर्यजाय धैर्यवर्धकाय नमः ॐावण्यराशये नमः ॐ सर्वज्ञाय नमः ॐ सद्बुद्धये नमः ॐ बुद्धिमध्वराय नमः ॐ धारणास्वरूपस्थाय नमः म् धारकाय धारकस्वामिने नमः ॐ धारणाय धारणप्रियाय नमः ॐ एकधाराय नमः ओम् द्विधाराय नमः ॐ त्रिधाराय नमः ॐ मातृकाश्रयाय नमः ॐ एकरूपाय नमः ॐ एकनाथाय नमः ओम ो बहुरूपस्वरूपमते नमः ओम लोकसाक्षिणे नमः ओम त्रिलोकेशाय नमः ओम त्रिगुणातीतमूर्तिमते नमः ओम भावतारुण्यरूपस्थाय नमः ॐ बुद्धिरूपप्रदर्शकाय नमः ओम अवस्थात्रयपूतस्थाय नमः स्थात्रयभूतस्थाय नमः ओम् वाक्यवाचकभावार्थाय नमः ओम् वाक्यार्थप्रियमाणसाय नमः ॐ सौंहंसवाक्यप्रमाणस्थाय नमः ॐ महावाक्यार्थबोधकाय नमः ॐ परमाणुप्रमाणस्थाय नमः ॐ कोटिब्रह्माण्डनायकाय नमः ं हं श्रीवामदेवाय नमः ओम् कपर्दिने केसरिने नमः ॐ कालाय नमः ॐ कल्पनालहिताकृतये नमः ओम् निगमाय नमः ओम् केचराय नमः ओम् ख्याताय नमः ॐ कान्त्याय नमः खादिने नमः ओम् खमुद्गताय नमः ॐ खचरायखण्डपरशवे नमः म् खचुखलोचनाय नमः ओम् अखण्डब्रह्मकण्ठश्रिये नमः ओम् अखण्डज्योतिषे अव्याय नमः ॐक्रकेलनाहृष्टाय नमः ॐ्ज्योतिषे नमः षड्भिरावृताय नमः ॐ करवाय नमः ॐ गोपतये नमः ॐ गोप्रे नमः ॐ गम्भीराय नमः म् ब्रह्मकोलाय नमः ॐ गोवर्धनगतये नमः ॐ गोविदे गुणाधीताय नमः ॐ गुणाकाराय नमः ङ्गमाय नमः ॐ कैङ्काराय नमः ॐ गह्वरागमाय नमः ॐ कर्पूरगौराय नमः गौरीगुरुगुहाश्रयाय नमः ॐ धूर्जटय नमः ओम् इलजटाय नमः जटामण्डलमण्डिताय जटा नमः मनोजमाय नमः ॐ जीवहेतवे नमः ॐ अन्धकासुरसूदनाय नमः ॐ लोकबन्धवे लोकधराय नमः ॐ भण्डराय नमः ॐ प्रमसाधिवाय नमः ॐ अव्यक्तलक्षणाय नमः ॐ योगीशाय नमः ॐ योगपुङ्गवाय नमः भूतावासाय नमः ॐ जनावासाय नमः ॐ सुरावासायः ॐ सुमङ्गलायनमः भववैद्यामः ॐ योगिवैद्यायनः ॐ योगिसिंहृदासनायनमःमः ॐ युगापहायनमः ॐ युगाधीशायनः ॐ युगकृद्युगमन्दिताजनमः ॐ किरीटालीटबालेन्द्रवे नमः ॐ मणिकुण्डलभूषणायनमः ॐ रक्ताङ्गरागायनमः ॐ रक्तेशायनमः ॐ रक्तरञ्जितपादुकाजनमः ॐ नवरत्नगणोपेतकिरीटायनमः त्नकञ्चुकाय नमः ओम् नानाविधरत्नान्दोल्लसत्कुण्डलमण्डिताय नमः ओम् दिव्यरत्नगणाकीर्णकण्ठाभरणभूषणाय नमः ॐ नमबालमणिनासापुटभ्राजितमौक्तिकाय नमः ङ्गुलीरविलसत्करशाखानकप्रभाय नमः ॐ रत्नभ्राजद्धेमसूत्रलसत्कटीतटीपुटाय नमः ओ वामाङ्गभागविलसत्पार्वलीवीक्षणप्रियाय नमः ओ लीलावलम्बितवपुषे नमः रत्नमानसमन्दिराय नमः मन्दमानसमन्दिराय नमः ओम् मन्दमन्दारपुष्पौखलसद्वाटीनिषेविताय नमः ओम् कस्तूरीविलसद्बालदिव्यवेषविराजिताय नमः ओम् दिव्यमेगप्रभाकूटसन्दीपितदिगम्बराय नमः ॐ देवासुरगुरवे नमः ओम् तुल्यदेवासुरनमस्कृताय नमः ॐ हंसराजाय नमः ओम् पुण्डरीकाय नमः ओम् पुण्डरीकनिभेक्षणाय नमः ओम् सर्वशास्त्रगणोपेताय नमः ओम् सर्वलोकेष्टभूषणाय नमः ॐ सर्वेष्टधात्रे नमः ो सर्वेष्टुरन्मङ्गलविग्रहाय नमः ओम् अविद्यावेषरहितनाविद्यैकसंश्रयाय नमः ओ, ओ, ओ मूर्तिभवत्कृपापूरणाय नमः ओम् भक्तेष्टफलपूरणाय नमः ओम् सम्पूर्णकामसौभाग्यनिधये नमः ओम् सौभाग्यदायकाय नमः ितैशिले नमः ओम् हितकृत्सौम्याय नमः ॐ परार्थैकप्रयोजनाय नमः ॐ शरणागतदीनार्थपरित्राणपरायणाय नमः ॐ विष्णुनेत्रे नमः ॐ वषत्काराय नमः ॐ भ्राजिष्णवे नमः ॐ भोजनाय हविषे नमः े नमः ओम् भोजयित्रे नमः ओम् अजेत्रे नमः ॐ जितार नमः ॐ जितमानसाय नमः ओम् कारणाय नमः ॐ रुद्राय नमः ॐ शमदाय नमः ॐ शारदप्लवाय नमः आत्मावगाह्यगम्भीराय नमः ॐ कलिदुःस्वप्ननाशकाय नमः वो पञ्चब्रह्मसमुत्पत्तये नमः वो क्षेत्रज्ञायक्षेत्रपालकाय नमः ओ व्योमकेशाय नमः वो भीमवेषाय नमः वो गौरीपतये नमः म् अनामयाय नमः ॐ भवाभितरणोपायाय नमः ॐ भगवते भक्तवत्सलाय नमः ॐ वराय वरिष्ठाय नमः ॐ तेजिष्टाप्रियाय नमः ॐ प्रियवदाय सुधिये नमः ॐ यन्त्रे विष्णवे नमः ॐ ज्योतिष्ठाय नमः विक्रोधतिरस्कृताजनमः ॐ हिरण्यगर्भाजनमः ॐ हेमाङ्गाजनमः ॐ हेमरूपाजनमः ॐ हिरण्यदाजनमः ओम् ब्रह्मज्योतिरणावेख्याजनमः ॐ चामुण्डाजनकाजनमः ओम् रवये नमः ओम् मोक्षात्रिजनसेव्या जनमः ओम् मोक्षदायनम ॐ मोक्षनायकायनमः ॐ महाश्मशाननिलया जनम ॐ वेदाश्वायनमः ॐ परतस्थिताय नमः ओम् मृगव्याधाय धर्मधात्रे नमः ॐ प्रभिन्नस्फटिकप्रभाय नमः सर्वज्ञायपरमात्मने नमः ॐ ब्रह्मानन्दाश्रयाय नमः ॐ शरभेश्वरमहादेवाय नमः ओम् परब्रह्मणे सदाशिवाय नमः ओम् स्वरविकृतिकर्त्रे नमः ॐ स्वरातीतस्वयम् विभवे नमः ओम् स्वर्गदस्वर्गधात्रे नमः नियन्त्रे नमः ॐ नियराश्रयाय नमः ॐ भूमिरूपाय नमः ॐ भूमिकर्त्रे नमः ॐ भूधराय नमः ॐ भूताश्रयाय नमः ॐ भूतनाथाय नमः ॐ भूतकर्त्रे नमः ॐ भूतसंहारकारकाय नमः भविष्यज्ञायभयदात्रे नमः ॐ भवदाय नमः ॐ भवहारकाय नमः ॐ वरदाय वरदात्रे नमः ॐ वरप्रीदाय वरप्रदाय नमः ॐ कूटस्थाय नमः ॐ कूटरूपाय नमः ॐ त्रिकूटाय नमः ॐ मन्त्रविग्रहाय नमः मन्त्रार्थाय मन्त्रगम्याय नमः ओं मन्त्रेशाय नमः ॐ मन्त्रभावकाय नमः ॐ सिद्धमन्त्राय नमः ॐ सिद्धधात्रे नमः ॐ जपसिद्धिस्वभावकाय नमः म् नामाधिकाय नमः म् अनामरूपाय नमः नामरूपगुणाश्रयाय नमः ॐ गुणकर्त्रे गुणत्रात्रे नमः ओम् गुणाधीताय गुणाश्रयायनमः ओम् गुणग्रामायनमः ओम् गुणाधीशाय नमः ॐ ओम गुणनिर्गुणकारकायनमः ओम् अकारमात्ररूपस्थाय नमः आकारातीतपावना नमः म् परमैश्वर्यधात्रे नमः ओम् परमप्रीतिदायका जनमः म् परमाय परमानन्दायनमः ओम् परानन्दाय परात्मरा जनमः ओम् वैकुण्ठरूपमध्यस्था जनमः म् वैकुण्ठाय नमः कैलासवासिने नमः ॐ कैलासाय शिवरूपाय नमः ॐ शिवप्रदाय नमः जटाजूडोद्भासिताङ्गभस्मधूसरभूषणाय नमः ॐ दिग्वाससे नमः ॐ दिग्विभागाय नमः ॐ दिगम्बरनिवासकाय नमः ॐ ध्यानकर्त्रे नमः ध्यानमोत्तये नमः ओम् धारणाधारणप्रियाय नमः ॐ शिवभक्तपुरीनाथभूलोकशिवलोकनाय नमः ओम् तत्त्वसाम्याय नमः ॐ तत्त्वगम्याय नमः ॐ तत्त्वार्थाय नमः ॐ तत्त्वदर्शनाय नमः ॐ तत्त्वासनाय नमः तत्त्वमार्गाय नमः ॐ तत्त्वान्ताय नमः ॐ तत्त्वविग्रहाय नमः ॐ दर्शनादधिकाय नमः ओ दृश्याय नमः ओ दृश्यातीतविदर्शकायनमः ओ दर्शनादर्शनातीतायनमः ओ पावनाकाररूपधृषे नमः मणिपर्वतसंस्थानमणिभूषणभूषिता जनम ॐ मणिप्रीता जनमः ओम् मणिश्रेष्ठायनम ओम् मणिस्थायनम ॐ मणिरूपकायनमः ॐ चिन्तामणिगृहान्तस्थाजनमः ओम् सर्वचिन्ताविवर्जिता जनमः चिन्ताक्रान्तभक्तचित्तचिन्तनाकारणात्मका जनम ओम् अचिन्त्यचिन्तारूपा जनमो निश्चिन्तायनमश्चयात्मका जनमः ओम् निश्चयानिश्चयाधीशायनमः ओम् निश्चयात्मनिदर्शका जनमः ओम् त्रिविक्रमाय त्रिकालज्ञायनमः त्रिधाम्ने त्रिपुरान्तकाय नमः ॐ ब्रह्मचारिव्रतप्रीताय नमः ॐ गृहस्थाय गृहवासकाय नमः ॐ परं धाम्ने नमः ॐ परब्रह्मणे नमः ॐ परमात्मने परात्मराय नमः ॐ सर्वेश्वराय नमः ॐ सर्वमयाय नमः ॐ सर्वसाक्षि मे नमः ॐ विलक्षणाय मणिद्वीपाय नमः ॐ द्वीपनाथाय नमः ॐ द्वीपान्ताय नमः ॐ द्वीपलक्षणाय नमः ओम् सप्तसागरतर्त्रे नमः ॐ सप्तसागरनायकाय नमः ॐ महीधराय नमः ॐ महीभर्त्रे नमः ओम् महीपालाय नमः ॐ महास्वनाय नमः ॐ महीव्याप्ताय नमः ॐ व्याप्तरूपाय नमः ॐ सुव्यक्ताय नमः क्तलोचनाय नमः ॐ सुमेशाध्याय नमः ॐ सुखप्रीताय नमः ॐ सुगमाय नमः ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रमसे नमः तारणाय तापसाराध्याय नमः ओ, ओ, ओ, ओ, ओ, ओ, ओ, ओ तारमध्यस्थाय नमः म् तपोधनाय नमः ॐ पररूपाय नमः ओम् परख्येयाय नमः ॐ परदैवतदैवताय नमः ॐ ब्रह्मपूज्याय नमः ओम् जगत्पूज्याय नमः ॐ भक्तपूज्याय वरप्रदाय नमः म् अद्वैताय नमः ओम् अद्वैतचित्तस्थाय नमः ॐ द्वैताद्वैतवर्जिताय नमः ओम् अभेद्याय नमः ओम् सर्वभेद्याय नमः ॐ भेद्यभेदनभेदकाय नमः ओम् लाक्षारसन्नाभाय नमः ॐ प्लवङ्गमहोत्समाय नमः शत्रुसंहारकर्त्रे नमः ॐ अवदारपराय हराय नमः ॐ संविधीशाय नमः ॐ संविधात्मने नमः ॐ संविज्ञानप्रदायकाय नमः ॐ संविद्धर्त्रे हर्त्रे नमः ॐ सच्चिदानन्दरूपमते नमः संशयाधीतसर्वार्थाय नमः ॐ सर्वसंशयहारकाय नमः ॐ निःसंशयमुनिध्येयाय नमः ॐ संशयात्मादिदुरकाय नमः ॐ शैवमन्त्राय नमः ॐ शिवप्रीतदीक्षाशैवस्वभावाय नमः भूतदीक्षाकृताय नमः ॐ भूपश्रेयसे नमः ॐ भूपत्वदायकाय नमः ॐ सर्वधर्मसमायुक्ताय नमः ॐ सर्वधर्मविवर्धकाय नमः ॐ सर्वशास्त्रे नमः ॐ सर्ववेत्रे नमः ॐ सर्वभोक्त्रे नमः सुदीप्तिमते नमः ॐ भक्तबालावताराय नमः ॐ भुक्तिमुक्तिप्रदायकाय नमः ॐ भक्तसिद्धार्थसिद्धये नमः ॐ सिद्धिबुद्धिप्रदायकाय नमः ॐ वाराणसीवासधात्रे नमः ॐ वाराणसीवरप्रदाय नमः णसीनाथरूपाय नमः ॐ गङ्गामस्तकधारकाय नमः ॐ पर्वताश्रयकर्त्रे नमः ॐ लिङ्गरूपत्र्यम्भकाय नमः ॐ लिङ्गदेहाय नमः ॐ लिङ्गपतये नमः ॐ लिङ्गपूज्याय नमः अतिदुर्लभाय नमः ॐ रुद्रप्रियाय नमः ॐ रुद्रशोभाय नमः ॐ रुद्ररूपायविरास्तुताय नमः ॐ रुद्राक्षमालाभूषाङ्गाय नमः ॐ जपरुद्राक्षतोषिताय नमः ॐ सत्यसिद्धये नमः ओम् सत्यधात्रे नमः ॐ सत्यकर्त्रे नमः ॐ सत्याश्रयाय नमः ॐ सत्यसाक्षिणे नमः ॐ सत्यलक्ष्याय नमः ॐ लक्ष्यातीताय नमः ॐ ममोहराय नमः ॐ जनकाय नमः ॐ जनतातीताय नमः जनिताजननिर्भयाय नमः ओ सृष्टिस्थितिप्रदाय नमः ॐपसृष्टिरूपस्थितिप्रदाय नमः ओ संहाररूपकालाग्निकल्पसंहाररूपकाय नमः ओ सप्तपातालभेदस्ताय नमः ओ, ओ, ओ महदाकाशशीर्षवसे नमः अमृताय नमः क्व अमृताकाराय नमः क्व अमृतामृतरूपकाय नमः को अमृताकारचित्तस्थाय नमः को अमृतोद्भवकारणायनमः क्वमृताहारनित्यस्थाय नमः को अमृतद्रवरूपमते नमः अमृताशाजनमः ओम् अमृताधीशायनमः ओम् अमृतप्रीतिवर्धनायनमः ओम् अनिर्देश्यायनमः ओम् अनिर्वास्यायनमः ओम् अनङ्गायनमः ओम् अनङ्गसंश्रयायनमः श्रेयोदश्रेयोरूपायनमः श्रेयोतीतफलप्रदाय नमः ॐ सारांशाय नमः ॐ सारसाक्षिणे नमः ॐ सारासारविचक्षणाय नमः ॐ धारणातीस्थाय नमः ॐ धारणान्वय नमः ॐ गोचराय नमः ॐ ियगोचराय नमः ॐ प्रियप्रियाय प्रियस्वार्थिने नमः ॐ स्वार्थिस्वार्थफलप्रदाय नमः ओम् अर्थदाय धर्मसाक्षिणे नमः ओम् लक्ष्यलक्षणविग्रहाय नमः ॐ जगदीशाय नमः ॐ जगत्कर्त्रे नमः ओम, जगत्रात्रे नमः ॐ जगन्न्यायजगद्गुरवे नमः ॐ रुद्रमूर्तये नमः ॐ त्रयीवेद्याय नमः ॐ वेद्यवेदकलेहराय नमः ॐपत्रात्रे रूपकर्त्रे नमः ॐ सर्वरूपार्थदायकाय नमः ओम् र्थाय अर्थमान्या जनमः ओम् अर्थार्थिने अर्थदायकायनमः ॐ विभवाय वैभवश्रेष्ठाय नमः ॐ सर्ववैभवदायकायनमः ॐ चतुष्षष्टिकलासूत्राय नमः ॐ पुराणश्रवणाकारपुराणपुरुषोत्तमाय नमः ओम् पुरातनाय पुराख्याताय नमः ॐ पूर्वजाय नमः ॐ पूर्वपूय नमः ॐ मन्त्रतन्त्रार्थसर्वज्ञ सर्वतन्त्रप्रकाशकाय नमः ॐ तन्त्रवेत्रे तन्त्रकर्त्रे नमः ॐ तन्त्रनिवासकाय नमः ॐ तन्त्रगम्याय नमः ॐ तन्त्रमाण्याय नमः ॐ तन्त्रयन्त्रफलप्रदाय नमः ॐ सोऽहं रूपस्वभावाय नमः ॐ सोऽहं रूपप्रदर्शकाय नमः ॐ ब्रह्माण्डकोटिकर्त्रे नमः ॐ ब्रह्माण्डोदरपूरकाय नमः ॐ ब्रह्म ब्रह्मोपदात्रे नमः ॐ ब्रह्मज्ञानपरायणाय नमः ॐ स्वयम्भुवे शम्भुरूपाय नमः ॐ सर्वसंशयपारगाय नमः ॐ सोऽहमस्मीति नित्यस्त सोऽहं हंसस्वरूपमते नमः ॐ हंस नमः ॐ हंस नमः ॐ निःस्पृहाय नमः ॐ श्वास उश्वासाय नमः ॐ पक्षिराजाय निरञ्जनाय